मुद्गलपुराणं खण्डम् एय्ट् धूम्रवर्णचरितम् अध्यायं ट्वेन्टि नैन् वैशाखमासमाहात्म्ये शिवभक्तिप्रदानं श्रीगणेशाय नमः शिवदत्त उवाच श्रुत्वा त्वद्वदनां भोजाच्युकगीतां सुतोषितः जादोऽधुना गणेशस्य प्राप्त्यर्थं पदमाम् पितः गर्ग उवाच समीपे व्रतमुख्यं यत् समागदं सुसिद्धिदं वैशाखमासजं कृत्वा गणपत्यो भविष्यसि एवमुक्त्वा महायोगी गर्गस्तस्मै ददौ परम् गाणेश पञ्चके नैकाक्षरं विधिसमन्वितं ततस्तेनाभ्यनुज्ञादो गर्गस्वेच्छाचरो ययौ शिवदत्तो व्रतं चक्रे गणेशप्रीतये परं वैशाखे ध्यानसंयुक्तस्तोषयामास शौनक गाणेश पञ्चकेनैव गणेशं सर्वसिद्धितं चतुर्थ्यां गणराजस्तु शुक्लायां प्रययौ मुनिम् ब्राह्मणस्य स्वरूपेण भिक्षार्थं क्षुधितो भृशं तमागतं समालोक्य प्रणनाम कृताञ्जलिः जगाद तं द्विजं विप्र महायशाः शिवदत्त उवाच आस्यतां किं वदमुने मुने कारणार्थं समागतः शक्यं चेत्तत्करिष्यामि प्रिदये विघ्नपश्य च द्विज उवाच पराश्चर्यमहाभाग मां जानीहि न संशयः क्षुधितं वै समायादं त्वत्देहे भोजनायदु तस्य तद्वचनं श्रुत्वा हर्षयुक्त उवाचदं तात शुक्लचदुग्धीजं व्रतं वदसि किं मुने उपोषणसमयुक्दा सेवन्ते त्वं महाभाग विस्मृतोऽस्सि वद स्व मां तस्य तद्वचनं श्रुत्वा पाराश्चर्यस्तमब्रवीद न जानामि व्रताद्यं तु सदा भक्षणलालसः श्रुत्वा प्रणम्य गार्ग्य नैवेद्यं गणभस्य च ददौ तस्मै स भुक्त्वा तं कृत्वा जगादहर्षिदः पराश्चर्य उवाच तव भावेन सन्तुष्टो जादोऽहं द्विजसत्तम वरं ब्रूहि प्रदास्यामि यत्ते चित्ते भवेन्मुने गार्ग्य उवाच किं वृणोमि महाविप्रसर्वं मायामयं जगद गणेश तत्परश्चाकं गच्छ त्वं निजमन्दिरम् एवं तस्य वच श्रुत्वा सद्विजो ब्रवीद नयामि स्वगृहं विप्र वरदोऽहं समागतः ततस्थं हठसंयुग्धम् दृष्ट्वा गार्ग्य उवाचः गणेशम् नान्यं व्याजे वरं परम् एवमुक्तो द्विजस्तं सं जगाद मोहदं वचः त्यक्त्वा नानाविधैश्वर्यं किं वृणौषि गजाननम् अहं योगीन्द्रमुख्यश्च दास्यामि सकलं सुखम् एवमुक्त्वा स गार्ग्याय दर्शयामास चैन्द्रकं नानादेवयुतो विप्रमिन्द्रस्थं प्रणनामः दासोकं ते महाभाग भुङ्क्षुत्वं सुखमैन्द्रजं यवमुक्त्वा चकाराक्षौ मायया वैभवं परं गार्ग्यस्थं नश्वरं मत्वा गणपेरतः ततोन्तर्धानमकरोदिन्द्रस्वनगरं ययौ सत्यलोकसमायोक्तस्तत्र ब्रह्मा समाययौ जगाद सत्यलोकस्य गार्ग्यं ब्रह्मा मुदान्विदः राज्यं कुरु महाभाग भज पश्चाद्गणेश्वरम् अनौपम्यं सुखं दृष्ट्वा गार्ग्यो विघ्नेश्वरे रथः नमो मोह जगादैव भोगं नेच्छामि भोविधे तदोऽन्तर्धानमकरोद्ब्रह्म लोकपितामहः अययौ केशवस्तत्र विकुण्ठेन समन्वितः विकुण्डविभवं दृष्ट्वा गार्घ्यो गणपतिं भजन् प्रार्थयन्तं महाविष्णुं त्यक्त्वा योगपरोऽभवत् तदसोऽपि ययौ स्थानमायययौ तत्र शङ्करः कैलासेन समायोक्तो नानाविभवमोहदः शिवेन प्रार्थितो गार्घ्यकैलासे राज्यकारणाद। न चकारस वै तत्र मदिं गणपदौ रथः शिवोऽन्तर्धनमकरोत्ततस्थं पुनरब्रवीद पराचर्यो महायोगी गार्ग्यम् निन्दापरायणः पराचर्य उवाच मूर्खोऽसि हतभागोऽसि गणेशम् किम् करिष्यसि ब्रह्मा कारमदो ब्रह्कार मदो भुंक्स्व भोगाधन सत्यसकलजा भोगान भुक्त्वा चांदे गणेश भजिष्यसि नदेहो ब्रह्माधिपतिर्भव गार्ग्य उवाच असत्यम विनज सौख्यम पराधीनात्मक मुने सत्यसङ्कल्पजं सौख्यं सत्यमनुपमं परं सत्यासत्यादिभेदाश्च मायायुक्दान संशयः क्षणभङ्गुरदेहस्थो नेच्छामि सत्तम। अथ वेश्वरभावेनामृदरूपं करोषि माम् तथा योग निपुन सुखम नेचा चरम किया दलयिदुम महाकल गभवनम विप्र गणेशे भक्ति कंटक ये तिस्पृदस्तेन पाराशर्ो महामुन प्रकश्य गणपकारो बे तत्क्षणान्मुने जगादतं महाभागं शिवदत्तं गजाननः पश्यमां गणनाधं त्वं पराशरसुदं मुने स दृष्ट्वा गणराजन्तं प्रणनामकृताञ्जलिः साश्रुनेत्रो भवत् सद्यो ननर्थप्रेमविह्वलः देहभावं समासाद्य तं पुपुजगजाननं मुदा युधप्रत्युष्ठाव शिवदत्तकृताञ्जलिः शिवदत्त उवाच गणेशाय नमस्तुभ्यं पराशरात्मजायते शिवपुत्राय शेषस्य पुत्राय वै नमो नमः सर्वपुत्राय सर्वेषां मात्रे पित्रे नमो नमः भ्रात्रे सुहृत्कणायैव स्नुषादिवेषधारिणे अनन्तरूपिणे तुभ्यं नानाभोगविहारिणे भोगहीनाय देवाय सुराय ते नमो नमः अपारगुणधाराय गुणानां पदये नमः गणेशाय परेशाय पूर्णानन्दाय ते नमः आदिमध्यान्तरूपैस्रष्टे पात्रे प्रहारिणे आदिमध्यान्तहीनाय साक्षिणे ते नमो नमः स्वानन्दपदयेतुभ्यं मूषकवाहनाय च सिद्धिबुद्धिप्रदात्रे ते सिद्धिबुद्धिपदे नमः योगानां पदयेतुभ्यं योगशान्तिस्वरूपिणे गजाननाय शान्तिभ्यः शान्तिदात्रे नमो नमः परेशाय महादीनपालकाय नमो नमः सर्वेभ्यः सुखदात्रेदे विघ्नेशाय नमो नमः किं तौ मि त्वां गणाध्यक्ष वेदा शान्तिं ददास्त्वयि अदो नमो नमो नाथ तुष्टो भवमहोदर प्रजांसि स्वस्तितास्तारामेकबिन्दूंश्च मानवः गणयेत्कोपि ते नाथ न ना गुणान् क्षमः धन्योऽहं सर्वभावैश्च येन दृष्टो गजाननः वेदान्तागोचरे गम्यो योगिभिश्च शिवादिभिः एवं स्तुत्वा गणेशानं न नाम तमुवाच गणाधीश स्वभक्तं भक्तलो लुपः श्रीगणेश उवाच वरान् वृणु महाभाग येदे चित्ते ददामि तान् च ते भक्त्या स्तोत्रेण मुनिसत्तमा शिवदत्त उवाच भक्तिं देहि त्वदीयां मे दृढामव्यभिचारिणीं नान्यं याजे गणाधीशत्वत्पादप्रवणोह्यहम् श्रीगणेश उवाच मदीया भक्तिरुग्रादे भविष्यति महामदे स्मृतिमात्रेण ते कार्यं भविष्यति सुसिद्धितं त्वया कृतमिदं स्तोत्रं मदीयं पठना नृणां श्रवणात्सिद्धिदं सर्वं भविष्यति निरन्तरं यद्यदिच्छति दि तत्तत्तु सफलं प्रभविष्यति स्तोत्रपाठेन विप्रर्षे मयि भक्तिप्रदं तदा यवमुक्त्वां दर्दधेः गणेशो ब्रह्मनायकः शिवदत्तो गणेशानं सञ्चिन्त्य स्वाश्रमे स्थितः सदा योगीन्द्रवन्द्यः अन्दे विघ्नेश्वरे योगी लीनो बभूव शौनक एवं वैशाखजं मुख्यं व्रतं सर्वार्थदं परं कथितं ते महाभागश्रवणात् सर्वसिद्धितं वैशाखव्रतसंयुक्तं शिवदत्तचरित्रकं यः पठे शृणुयाद्वापि स सर्वफलभाग् भवेद् ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते वैशाखमासमाहात्म्ये शिवभक्तिप्रदानं नाम ंशोध्याय ओम।